अथ षड्विंशः सर्गः मुनेर्वचनमक्लीबम् श्रुत्वा नरवरात्मजः राघवः प्राञ्जलिर्भूत्वा प्रत्युवाच दृढरतः पितुर्वचननिर्देशात् पितुर्वचनगौरवात् वचनम् कौशिकस्येति कर्तव्यमविशङ्गया अनुशिष्टोऽस्म्ययोध्यायाम् गुरुमध्ये महात्मना पित्रा दशरथेनाहम् नावज्ञेयम् हि तद्वचः सोऽहम् पितुर्वचः श्रुत्वा शासनाद्ब्रह्मवादिनः करिष्यामि न सन्देहस्ताटकावधमुत्तमम् गोब्राह्मणहितार्थाय देशस्य च च तव प्रमेयस्य वचनम् कर्तुमुद्यतः एवमुक्त्वा धनुर्मध्ये बद्ध्वा मुष्टिमरिन्दमः ज्याघोषमकरोत्ती्रम् दिशः शब्देन नादयन् तेन शब्देन वित्रस्तास्ताटकावनवासिनः ताटका च सुसङ्क्रुद्धा तेन शब्देन मोहिता तम् शब्दमभि निध्याय राक्षसी क्रोधमूर्च्छिता श्रुत्वा चाभ्यद्रवत्क्रुद्धा यत्र शब्दो विनिःसृतः ताम् दृष्ट्वा राघवः क्रुद्धाम् विकृताम् प्रमाणेनातिवृद्धाम् च लक्ष्मणम् सोऽभ्यभाषत पश्य लक्ष्मण यक्षिण्या भैरवम् दारुणम् वपुः भिद्येरम् दर्शनादस्या भीरूणाम् हृदयानि च एताम् पश्य दुराधर्शाम् मायाबलसमन्विताम् विनिवृत्ताम् करोम्यद्य हृतकर्णाग्रणासिकाम् न ह्येनामुत्सहे वीर्यम् चास्यागतिं चैव हन्यामिति हि मे रामे तु ताटका क्रोधमूर्च्छिता उद्यम्य बाहुम् गर्जन्ती राममेवाभ्यधावता विश्वामित्रस्तु ब्रह्म ऋषिर्हुङ्कारेणाभिभर्त्स्यता स्वस्ति राघवयोरस्तु जयम् चैवाभ्यभाषत उद्ध्वन्वानारजोघोरम् ताटका राघवाबुभौ रजो मेघेन महता मुहूर्त स्यमोहत मयांस शिलर्षेण राघव अवाक्यसु महता तत शुक्रोध राघव शिलहत्सरवर्षेण राघव प्रतिपात कौचि छेदपत्रि ततश्न भुजा श्रांतामे पिगर्जती सौमित्रिरकरोत्क्रोधाृतकर्णाग्रनासिका कामरूपधरा सा तु कृत्वा रूपाण्यनेकषः अन्तर्धानम् गता यक्षी मोहयन्ती स्वमायया अश्मवर्षम् विमुञ्चन्ती भैरवम् विचारसा ततस्तावश्मवर्षेण कीर्यमाणौ समन्ततः दृष्ट्वा गाधिसुत श्रीमानिदम् अलन्ते घृणया रामपापैषा दुष्टचारिणी यज्ञविघ्नकरी यक्षी पुरा वर्धेतमायया बध्यताम् तावदेवैषा पुरा संध्या प्रवर्तते रक्षांसि सन्ध्याकाले तु दुर्धर्षाणि भवन्ति हि इत्युक्तः स तु तान् यक्षीमश्मवृष्ट्याभिवर्षिणी सारुद्धा बाणजालेन बलसमन्विता अभिदुद्राव लक्ष्मणम् च विनेदुषी तामापतन्तीम् वेगेन विक्रान्तामशलीमिव शरेणोरसि दिव्याधसापपातममारच ताम् हताम् भीमसङ्काशाम् दृष्ट्वा सुरपतिस्तदा साधु साध्यति काकुत्स्थम् सुराश्चाप्यभिपूजयन् उवाच परमप्रीतः सहस्राक्षः सुराष्ट सर्वे संवृष्टा विश्वामित्रमथा ब्रुवन् मुने कौशिकभद्रन्ते सेन्द्राः सर्वे मरुद्गणाः तोशिता कर्मणा अनेन स्नेहम् दर्शय राघवे प्रजापते कृशाश्वस्य पुत्रान् सत्यपराक्रमान् तपो ब्रह्मन् राघवाय निवेदय पात्रभूतश्च ते ब्रह्मंस्तवानुगमने रतः कर्तव्यं सुमहत्कर्म सुराणाम् राजसूनुना एवमुक्त्वा सुराः सर्वे जग्मुर्हृष्टा विहायसम् विश्वामित्रम् पूजयन्तस्ततः प्रवर्तते ततो मुनिवरः प्रीतस्ताटकावधतोषितः मूर्ध् राममुपाघ्राय इदम् इहाद्यरजनीम् राम वसामशुभदर्शना श्वः प्रभाते गमिष्यामस्तदा श्रमपदम् मम विश्वामित्रवच श्रुत्वा हृष्टो दशरथात्मजः उवासरजनीम् तत्र ताटकाया वने सुखम् मुक्तशापम् वनम् तच्च तस्मिन्नेव ददाहनी रमणीयम् विबभ्राज यथा चैत्ररथम् वनम् निहत्यताम् यक्षसुताम् स रामः प्रशस्यमानः मुनिना सहैव प्रभातवेलाम् प्रति इत्यार्षे श्रीमद् वाल्मीकिये वाल्मीकीये आदिकाव्ये बालकाण्डे षड्विंशः